ब्रह्माण मध्यभाग्या फॉर्टी वन भागवचरिम वसीष्ठ उवाच दृष्टवा तत्पुत्रास्ते तत्त्रस्ते त्वरा वारया मसुरतुग्र भागव स्वबले पृथक एकै काक्षै एकैकाक्षैहिणीयुक्ताः सर्वे ते युद्धदुर्मदाः संग्रामं तुमुलं चक्रुसंरब्धास्तु पितुर्वधात् रामस्तु दृष्ट्वा तत्पुत्राूरान्नविशारदान् परश्वधं समादाय युयुधे तैश्च सङ्गरे तां सेनां भगवान् रामः सदा क्षौहिणी संमिदां निजघानत्वरायुक्तो मुहूर्तद्वयमात्रतः निःशेषितं स्वसैन्यं तु कुठारेणैव लीलया दृष्टारेण ते युयुर्वीर्सद नावी दिव्या प्रहर दो महोजस पीधो मंडल चक्रोभागवश महात्म अधरामी बलवास्डलमध्यग विरेजे भगवान्साक्षाद्यथा नाभिस्तु चक्रगा नृत्यन्निवाचौ विरराज रामशतं पुनस्ते परितो भ्रमन्तः रेजुश्च गोपीगणमध्यसंस्थकृष्णो यथा ताः परितो भ्रमन्त्यः तदा तु सर्वे द्रुहिणप्रधाना समागदा स्वस्व स्वस्वविमानसंस्थाः समाकिरन्नन्दनमाल्यवर्षैः समन्दतो राममहीनवीर्यं यशस्त्रपादादुदतिष्ठदध्वनिर्हुङ्कारगर्भो दिवमस्पृशन् स वै तौर्यत्रिकस्येव शरक्षतानि भान्तीव यद्वन्नखदन्तपादाः क्रन्दन्ति शस्त्रैः क्षदविक्षदाङ्गा गायन्ति यद्वत्किलगिदविज्ञाः एवं प्रवृत्तं नृपयुद्धमण्डलं पश्यन्ति देव भृशविस्मिताक्षः ततस्तु रामो वनिपालपुत्राञ्जिखांसु राजौ विविधास्त्रपूगैः पृथक् चकारादिवलांस्तु मण्डलद्विच्छिद्यपङ्क्तिं प्रभुरात्तचापः एकैकशस्तान्निजखानवीराञ्छदं तदा पञ्चतदः पलायिताः शूरो वृषास्यो वृषशूरसेनौ व्रुशा जयध्वजश्चापि विभिन्नधैर्याः महाभयेनाथ परीदचिदाहिमाद्रिपादान्तरकाननं च पृथग्गतास्ते सुपरीप्सवो नृपा न कोऽपि कां स्विदृशे भृशार्थः रामोऽपि हत्वा नृपचक्रमाजौ राज्ञः सहाय्यर्थमुपागतं च समन्वितो सावकृतव्रणेन सष्णौ नर्मदायाम् श्रत्वा नित्यक्रियां कृत्वा सम्पूज्य वृषभध्वजं प्रतस्थे द्रष्टुमुर्विश शिवं कैलासवासिनं गुरुपत्नीमुमां चापि सुधौ स्कन्धविनायकौ मनो महात्मासा महात्मा सावकृतव्रणसंयुतः कृतकार्यो मुदा युक्तकैलासंप्राप्य तत्क्षणं ददर्श तत्र नगरीं महदीं मलकाभिधम् नानामणिगणाकीर्णभवनैरुपशोभिधां नानारूप धरैर्यक्षैः शोभितां चित्रभूषणैः नानावृक्षसमाकीर्णैर्वनैश्चोपवनैर्युधां दीर्घिकाभिः सुदीर्काभिस्तडागैश्चोपशोभितां सर्वतोऽप्यावृतां बाह्ये सीतया लकनन्दया तत्र देवाङ्गनास्नानमुक्तकुङ्कुमपिञ्जरं तृषाविरहिताश्चाम्भक् पिबन्दि करिणो मुदा यत्र सम्नादा श्रूयन्ते तत्र तत्र गन्धर्वैरप्सरोभिश्च सततं सहकारिभिः तां दृष्ट्वा भार्गवोराजन्मुदा परमयायुधः ययौ तदूर्ध्वं शिखरं यत्र शेवपरं गृहं ततो ददर्शराजेन्द्रस्निग्धच्छायं महावटम् तस्याद्धस्ताध्वरावासं सुसेव्यं सिद्धसंयुधम् ददर्शं तत्र प्राकारं शतयोजनमण्डलं नानारत्नाचिदं रम्यं चतुर्द्वारं गणावृतं नन्दीश्वरं महाकालं रक्ताक्षं विघोदरं पिङ्गलाक्षं विशालाक्षं विरूपाक्षं खडोदरं मन्दारं भैरवं बाणम् रुरुं भैरवमेव च वीरकं वीरभद्रं च च चण्डं भृङ्गिं रिडिं विद्याधर महोरगान विद्याधरमहोरगान् भूतप्रेदपिशाचांश्च कूष्माण्डान् ब्रह्मराक्षसान् वेदालान् दानवेन्द्रांश्च योगीन्द्रांश्च जडाधरान् यक्ष किं पुरुषांश्चैव डाकिनीयोगिनीस्तथा दृष्ट्वा नन्द्याज्ञया तत्र प्रविष्टोन्दर्मुदान्वितः ददर्श तत्र भुवनैरावृदं शिवमन्दिरं चतुर्योजनविस्तीर्णं तत्र प्राग्द्वारसंस्थितौ दृष्ट्वा वामे कार्तिकेय दक्ष चैव विनायकं ननामभार्गवस्तौ द्वौ शिवतुल्यपराक्रमौ पार्षदप्रवरास्तत्र क्षेत्रपालाश्च संस्थिताः रत्नसिंहासनस्ताश्च रत्नभूषमभूषिताः भार्गवं प्रविशन्तं तु ह्यपृच्छन् शिवमन्दिरं विनायको महाराजक्षणं तिष्ठेत्युवाचः निद्रिदो ह्युमयायुक्तो महादेवो च ईश्वराज्ञा गृहीहम ग क्षण साधम प्रवेश भ्रतस्तिष्ट्र सांतम विनाय कच्चवनंदन प्रवक्त मुपच्रागणेशंयाम उवाच गत्वा ह्यन्तः पुरं भ्रातः प्रणम्य जगदीश्वरौ पार्वतीशङ्करौ सद्यो यास्यामि निजमन्दिरं कार्तवीर्यस्तु चन्द्रश्च सपुत्रबलबान्धवः अन्ये सहस्रचो भूवा काम्बोजा पङ्गलवा शाकाः कन्या माया कन्याकुबाकोंशलेश मंदो महाबलाखता सर्वे मया मै शंभप्रसाद तमीमं प्रणिपत या स्वगृहंक् भागवस्त्रतस्थ गणपते पुरा प्रोवाचमधुरं वाक्यं भार्गवेश गणाधिपः विनायक उवाच ज्ञं तिष्ठमहाभागदर्शनं ते भविष्यति अद्य विश्वेश्वरो भ्रातर् भवान्या सह वर्तते स्त्रीपुंसौर्युक्तयोस्ताद सहैकासनसंस्थयोः करोति सुखभङ्गं यो नरकं सव्रजेध्रुवं विशेषतस्तु पितरं गुरुं वा भूपतिं द्विजः रथयं समुवासीनं निश्चयः कामदो कामदो वापि पश्येद्यः सुरतोन्मुखं स्त्रीविच्छेदो भवेत्तस्य ध्रुवं जन्मसु श्रोणिं वक्षस्थलं वक्त्रं यः पश्यति परस्त्रियः भगिन्यावा भगिन्या वा दुःखिदुस्सनराधमः भार्गव उवाच अकोश्रुतमपूर्वं किं वचनम् तव वक्त्रतः भ्रान्त्या विनिर्गतं वापि हास्यार्थमधवोदितं कामिनां सविकाराणामेधास्त्रनिदर्शनं निर्विकारास्य च शिशोर्न दोषकश्चिदेव हि यस्याम्यन्धपुरं भ्रातस्तव किं तिष्ठ बालक यथा दृष्टं करिष्यामि तत्र यत्समयोचितं तत्रैव मादा तातश्च त्वया नामनिरूपितौ जगदाम्पितरौतौ च पार्वतीपरमेश्वरौ इत्युक्त्युक्त्वा भार्गवो राजन्नर्गन्तुं समुद्यतः विनायकस्तदोद्धाय वारयामाससत्वरं सत्वरं वाग्युग्धं च तयोरासीन्मिथो हस्तविकर्षणं दृष्ट्वा स्कन्धस्तु सम्भ्रान्तो बोधयामास तौ तदा बाहुभ्यां द्वौ समुद्गृह्य पृथगुत्सारितौ तथा अध क्रुद्धो गणेशाय भार्गवः परश्वधं समादाय सप्रक्षेप्तुं समुद्यतः तं गजाननो भृगुवरं क्रोधाक्षिपन्तं त्वरास्वात्मार्थं स्वात्मार्थं परशुं तदा निचकरेणो धृत्यवेगेन तु भूर्लोकं भुवः स्वरपि तस्योर्ध्वं महर्वैजनं लोकं चापि तपोध सत्यमपरं वै, वै कुण्ठमप्यानयद् तस्योर्ध्वं च विदर्शयन् भृगुवरं गोलोकमीषात्मजो निष्पात्याधरलोकसप्तकमपीद्धं दर्शयामास दर्शया मासच ततो तदोही गर्भसलिले प्रक्षप्तमात्रं त्वराभीतं भीतं प्राण परिप्सु मानयदधो तत्रैव यत्रास्थितः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते एकचत्वारिंशत्तमोऽध्यायः ओ